यद्यनेन हतो बाल्ये शकुनिश्चित्रमत्र किं तौ वाश्ववृषभौ भीष्म यौन चेतनारहितं काष्ठं यद्यनेन पादेनशकटं भीष्म तत्र किं कृतमद्भुतम् अर्कप्रमाणौ तौ वृक्षौ यद्यनेन निपातितौ नागश्च पातितोनेन तत्र को विस्मयः कृतः सप्ताहं यद्यनेन धृतोऽचलः तदा गोवर्धनो भीष्म न मम मुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि इतिते ते भीष्मशृण्वानाः परे विस्मयमागताः यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः स चानेन इत्ये महाद्भुतं न ते श्रुतमिदम् भीष्म नूनं कथयतां सतां यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम